पञ्जावद् दशतम् श्रीरामचरितम् नीदशुग्रीव मैत्रीम् तदनु हनुमता भूयो लुलवित युगबत् पत्रिणा सप्त सालान् हत्वा <laughs> सुग्रीव कादोत्यतम् अतुलबलम् बालिनम् वर्षा वेनामनैषे विरहतरलितम् मदङ्गाश्रमान्ते सुग्रीवेणानुजोक्त्या सभयमभियताम् यूहिताम् वाहिनीम् ताम् वृक्षाणाम् वीक्ष दीक्षोद्रुतमतदयिता मार्गणायावनम् राम् सन्देशम् शाङ्गुलीयम् पवनसुतकरे प्रादिशो मार्गे मार्गे ममार्गे कपिबिरदि तदा त्वप्रियास प्रयासै त्वत् वार्ता कर्णनोन्त्य करुतुरुजव सम्पाति सम्पाति वाक्य प्रोतीर्णात्रेणाधिरन्ध रज्जकरिजनगजाम् वीक्षतत्वाङ्गुलीयम् प्रत्यूक्ष्योत्यानमक्षपणचणरणषोडबन्धो दशास्यम् दृष्ट्वा प्लुष्ट्वा च लङ्घा झटिति स हनुमान् मौलिरत्नम् ददौ ते त्वम् शुभ्रीवाम् दधाति प्रबलतपि चमूचक्रविक्रान्तभूमि चक्रो विक्रम्यपारे जलति निशे चरेन्द्रानुजा श्रीयमाण तत् प्रोक्ताम् शत्रुभार्थाम् रहसि नि चमयन् प्रार्थनापार्थ्यरोष प्रास्थाग्नेयास्त्र तेजस्त्रसत् उददिगिरा लब्धवान् मध्यमार्घम् गीचैरा यादोन्यामर्द्यदंष्ट्रा नगशिखरि शिला सालसस्त्रैस्वसैन्यै व्याकुर्वन् सानुजस्त्वम् समरभुवि परम् विक्रमम् चक्रजेत्रा वेगान्नागास्त्रबद्ध पदगबदि गरुन् मारुदैर्मोषितो भूम् सौमित्रस्त्वत्र शक्ते प्रकृतिगलदसोर्वादजानीतचैल घ्राणात्प्राणानुवेधो व्यकृनदगुः श्रुते श्लाघिनम् मेघनाथम् मायाक्षोभेषु वैभीक्षणवशनकृत स्तम्बनः कुम्भकर्णम् सम्प्राप्तम् कम्विदोर्पीतनम् अखिलसमो भक्षिणम् दक्षिणोऽस्त्वम् गृह्णनन् जम्भारि सम्प्रेक्षितरतकवचो रावणेनाभियुध्यन् ब्रह्मास्त्रेणास्य बिन्धन् कलतिमबलमाग्नि सुद्दाम् प्रकृघ्नन् देवश्रेणिवरोज्जीवितसमरमृतैके अक्षतैर् रुक्षसङ्खे लङ्गा भद्रा च निजनगरमगा सप्रिय पुष्पकेण प्रीतो दिव्याभिक्षेकरैयुतसमधिगान् वत्सरान् पर्यरंसि मैथिल्याम् पापवाच शिव शिव किलताम् गर्भिणीमभ्यसासि शद्रुग्नेनार्दयित्वा लवननिचिर्शरम् प्राब्जयः शूद्रपाशम् तावद् वाल्मीकि गेहे कृतवसते उबसोदसीतासुतौ ते राज्ञया यज्ञवाठे सीतान् क्षितिम् अविचतसौ त्वम् च कालोऽर्तितोऽभू हेतोऽसौ मित्रिघात्रे स्वयमदसरयो मग्ननिशेष वृद्धये सागम् नागम् प्रयातो निजबतमगम देववैकुण्ठमाद्यम् स्वोयम् मर्द्यावर्दारस्तव खलु नियतम् विश्लेषार्तिर्निरागस्तयजनभिभवेत् कामधर्मादिसख्या नो चेत् स्वात्मानुभूते त्वनु तव मनसो विक्रियाचक्रपाणे सत्त्वम् सत्त्वैकमूर्ते पवनपुरपते व्यादुनोस्व्यादितापान् सत्त्वम् सत्त्वैकमूर्ते पवनपुरपते व्याधुनुव्याजितापान् सत्त्वम् सत्त्वैकमूर्ते पवनपुरपते व्याधुनो व्याजितापान् सर्वत्र गोपिका जीवनस्मरणम् गोविन्धा गोविन्धा श्रीराम् जेजाम् जे जे